सपपातमहाबाहुर्वज्राहत इवाचलः ततश्चेदिपतेर्देहात् तेजोग्र्यं ददृशुर्नृपाः उत्पतन्तं महाराजगनादिवभास्करं ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् ववन्देतत्तदा तेजोविवेशच नराधिप तदद्भुतमन्यन्त दृष्ट्वा सर्वे महीक्षितः यद्विवेशमहाबाहुं तत्तेजः पुरुषोत्तमम् अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः कृष्णेन निहते चैद्ये चचाल च चा वसुन्धरा ततः केचिन्महीपालानाब्रुवंस्तत्र किञ्चन अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनं हस्तैर्हस्ताग्रमपरे प्रत्यर्पिषन्न अपरे दशनैरोष्ठानदशन् क्रोधमूर्च्छिताः रहश्च केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः केचिदेव सुं रब्धा मध्यस्थास्त्वपरे भवन् प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः ब्राह्मण महात्म पार्थिवास् महाबला